त्रयस्त्रिंशोऽध्यायः वैशंपायन उवाच याज्ञसेन्यावच श्रुत्वा भीमसेनो ह्यमर्षणः निःश्वसन्नुपसङ्गम्य क्रुद्धो राज्यस्य पदवीम् धर्म्याम् रजसत्पुरुषोचिताम् धर्मकामार्थहीनानां किन्नो वस्तुम् नैव धर्मेण तद्राज्यन्नार्जवेन न चौजसा अक्षकूटमधिष्ठाय श्रितम् दुर्योधनेन वै गोमायुमेव सिंहानाम् दुर्वलेन बलीयताम् आमिषंविधसाशेन तद्वद्राज्यम् हि नो हृतम् धर्मलेश प्रतिच्छन्नः प्रभवन् धर्म कामयोः राजन् दुःखेषु परितप्यसे भवतो नवधानेन राज्यम् न स्पश्यताम् हृतम् अहार्यमपि शक्रेण गुप्तङ्गाण्डीव धन्वना कुणीनामिव बिल्वानि पङ्गूनामिव धेनवः भवतः कृते भवतः प्रियमित्येवम् महद्यसनमीदृशम् धर्मकामे प्रतीतस्य प्रतिपन्ना भारत दर्शयाम स्वमित्राणि नन्दयामश्च शात्रवान् आत्मानम् भवताम् शास्त्रैर्नियम्य भरतर्षभ यद्वयन्न तदैवैतान् धाकराष्ट्रान् निहन्महि भवतः शास्त्रमादाय